अथ पञ्चविंशः सर्गः अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् श्रुत्वा पुरुषशा तूलः प्रत्युवाच शुभाङ्गिरम् अल्पवीर्याय दाय क्षी श्रूयते मुनिपुङ्गवा कथम् नागसहस्रस्य धारयत्य बलाबलम् इत्युक्तम् श्रुत्वा राघवस्यामि हर्षयञ्च्लक्ष्मया वाचा सलक्ष्मणमरिन्दवम् विश्वामित्रोऽब्रवीद्वाक्यम् शृणु येन बलोत्कटा वरदानकृतम् वीर्यम् धारयत्य बलाबलम् पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान् अनपत्यः शुभाचारः यक्षपतेस्तदा कन्यारत्नम् ददौ राम ताटकाम् नाम नामतः ददौ नागसहस्रस्य बलम् चास्याः पितामहः नत्वेव पुत्रम् यक्षाय ददौ चासौ महायशाः ताम् तु बालाम् विवर्धन्तीम् रूपयौवनशालिनीम् जम्भपुत्राय सुन्दाय ददौ भार्याम् यशस्विनीम् कस्यचित्वथ कालस्य यक्षी पुत्रम् व्यजायत मारीचम् नाम दुर्धर्षम् यस्यापा द्राक्षसोऽभवत् सुन्दे तु निहते राम अगस्त्यमृषि सत्तमम् ताटका सह पुत्रेण प्रदर्शयितुमिच्छति भक्षार्थम् जातसंरम्भा साभ्यधावता आपतन्तीम् तु अगस्त्यः परमामर्शस्ताटकामपि शप्तवान् पुरुषादी महायक्षी विकृता विकृता न इदम् रूपम् विहायाशु दारुणम् रूपमस्तु ते सैषा शापकृतामर्षा ताटका क्रोधमूर्च्छिता देशमुत्सादयत्येनमगस्त्याचरितम् गो ब्राह्मणहितार्थाय जहि दुष्टपराक्रमा न ह्येनाम् शापसंसृष्टाम् कश्चिदुत्सहते पुमान् निहन्तुम् त्रिषु लोकेषु त्वा मृते रघुनन्दना स्त्रीवधकृते घृणाकार्या नरोत्तमा चातुर्वर्ण्यहितार्थम् हि कर्तव्यम् राजसूनुना नृशंसम नृशंसम् वा प्रजारक्षणकारणात् पातकम् वा स दोषम् कर्तव्यं रक्षता सदा राज्यभारनियुक्तानामेष धर्मः सनातनः अधर्म्याम् ज हि काकुत्स्थधर्मो ह्यस्यान्न विद्यते श्रूयते पुरा शक्रो विरोचनसुता नृपा पृथिवीम् हन्तुमिच्छन्तीम् मन्थरामभ्यसूदयत् विष्णुना च पुरा अनींद्रम लोकम्छती्यता का शोदिता एक इश्च बहुराजपुत्रहात्म अधर्मसहिता हता पुषसम कस्मादेना घृणा त्यक्ता जहिम्छासनाशे श्रीमद्राणे वाक आदि काव्ये बालकाण्डे पञ्चविंशः